आर्यव्रतश्च पाञ्चाल्यो न स राजाधनप्रियः न सन्त्यक्ष्यति कौन्तेयान् राज्यदानैरपि ध्रुवं यथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् तस्मान्नोपायसाध्यां स्तानहं मन्ये कथञ्चन इदं त्वद्यक्षमं कर्तुम् अस्माकं पुरुषर्षभा यावन्नकृतमूलास्ते कृतमूलास्ते पाण्डवे या विशाम्पते तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम् अस्मत्पक्षो यावत् यावत् तावत्प्रहरणं तेषां क्रियतामाविचारय वाहनानि प्रभूतानि मित्राणि च कुलानि च यावन्न तेषां गान्धारे तावद्विक्रमपार्थिव यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः सः पुत्रैर्महावीर्यैस्तावद्विक्रमपार्थिव यावन्नायाति वार्ष्णेयः कर्शन् यादववाहिनीं राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति वसूनि विविधान् भोगान् राज्यमेव च केवलं नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथञ्चन विक्रमेण प्राप्ता भरतेन महात्मना विक्रमेण च लोकां स्त्रीं जितवान् पाकशासनः